मुद्गलपुराणं खण्डं नैन् योगचरितम् अध्यायं फोर् पूर्णयोगचरितवर्णनं श्रीगणेशाय नमः तपसा नागदं दृष्ट्वा गजाननम् अयोगो कर्षितोत्यन्तमुद्धाय प्रणनामदं ततः पूज्य नानोपचारकैः पुनः प्रणम्य विघ्नेशं तुष्टावकरसम्पुटः अयोग उवाच शान्तिस्वरूपाय सुशान्दिदाय वाणीमनोहीनतमाय ढुण्डे वाणीमनोयुक्तविचारिणे वै योगाय योगाधिपदे नमस्ते वाणीमनोयुक्तमयं वदामि नो विश्वरूपोऽसि कथं स्तवैमि नित्यं गणेशाय नमो महात्मन्योगाय योगाधिपदे नमस्ते वाणीमनोहीनमयं कथं त्वां ब्रुवेद्य संयोगमयं कदा च नो योगरूपं त्वदते नमो वै योगाय पदे नमस्ते त्वत्तः प्रसूतानि महानुभावब्रह्मणि विश्वानि पराणि भूयः त्वय्येवलीनानि स्याभिन्न भावाद्योगाय योगाधिपदे नमस्ते नित्यं ह्ययोगाय निवृत्तिदाय मायाविहीनाय गणाधिपाय वाणी मनोहीनतया सुलभ्य योगाय योगाधिपदे नमस्ते स्वानन्दरूपाय सुशान्दिदाय सिद्ध्याय बुद्ध्या वाणीमनोहीननिजात्मलभ्ययोगाय योगाधिपदे योगा नमस्ते अव्यक्ररूपाय च साहजाय मोहेन हीनाय सदाशिवाय त्रैविध्यनादाय च नेधिकर्त्रे योगाय योगाधिपदे नमस्ते सामान्यरूपाय त्रयीमयाय द्वन्द्वप्रकाशाय च विष्णवेदे आनन्दनादाय सुखेलकाय योगा योगाधिपे नमस्ते आत्मस्वू सदा मृतस्तोग्यतमाो भेदर्विनाय चीवनाय योगाय योगाधिपे योगा नमस्ते नाभेदेशु तमयाय सर्वस्व चा शे आनन्द्यभावैश्च सुमोहदाय योगाय योगाधिपदे नमस्ते साक्षिस्वरूपाय च साङ्ख्ययोग लभ्यस्वरूपाय सदात्मसंस्था बोधेन हीनाय परात्पराय योगाय योगाधिपदे नमस्ते बोधस्वरूपाय सङ्ख्याविहारकर्त्रे सदा पालकभावधारिन् त्रैविध्यनादाय महोदराय योगाय योगाधिपदे नमस्ते सोऽहं स्वरूपाय च च चिन्मयाय मोहेन युक्ताय च हीनकाय देहिस्वरूपेण विहारकर्त्रे योगाय योगाधिपदे नमस्ते बिन्दुप्रजुर्गाय चतुष्पदाय चतुर्विधेषु प्रभवाय तुभ्यम् अनन्ध्यतत्त्वाय च देहभोक्त्रे योगाय योगाधिपदे नमस्ते तुर्यात्मदेहाय लयात्मकाय कालस्वरूपाय गणेश्वराय नादात्मकाया धत्रिदेहकाय योगाय योगाधिपदे नमस्ते आनन्दकोशात्मकसंस्थिताय प्राज्ञाय सौक्षुप्तमयाय तुभ्यम् नित्येश्वरायैव तयोः प्रचारिन् योगाय योगाधिपदे नमस्ते सर्वान्तरस्थाय च सूक्ष्मकाय स्वप्नप्रचुराय च तैजसाय हिरण्यगर्भाय तयोः प्रचारिन् योगाय योगाधिपदे नमस्ते बाह्यस्थितायान्नमयाय विश्ववैश्वानरायैव तयोः प्रचारिन् योगाय योगाधिपदे नमस्ते विश्व्यमय तोभ्यम नांदय चलखकाय शक्ते जतात्रे हिरये शिवाय योगाय योगाधिपदे नमस्ते यदे गणेशाधिपदे कलांसा विघ्नेश्वरास्ते गणनायकाय न त्वं सदायि थायि सहितो योगाय योगाधिपदे नमस्ते स्तुमक्कथं नाथगणेशरूपं संयोगहीनं चक्षयोगहीनं तदात्मरूपं भवतुष्टचित्तं योगाय योगाधिपदे नमस्ते मुद्गल उवाच एवं स्तुत्वा गणेशानं प्रणनाम कृताञ्जलिः अयोगस्तं गणाधीशो जगादखननिस्वनः गणेश उवाच वरान् वृणुमहाभागमनसीप्सितरूपकान् दास्यामि भक्तितुष्टोऽहं स्तोत्रेणानेन ना योग त्वया कृतमिदं स्तोत्रं योगशान्तिपदप्रदं पठदां शृणोदां नित्यं नानासिद्धिप्रदं भवेत् यं यमिच्छसि यम तं तं वै दास्यामि स्तोत्रपाठतः मयि प्रीतिकरं च स्तु भक्तिभावप्रदं तद्धा एकविंशतिवारं चैकविंशतिदिनावधि पठते तस्य सर्वं च दास्यामि दुर्लभं हि चेत् एवमुक्त्वा गणेशान सस्वजेतं गणाधिपम् अयोगरूपिणं हर्षसंयुक्तं प्रचकारः तदो योगो गणाध्यक्षं प्रणम्य च पुनः पुनः जगादभक्तिसंयुक्तो हृष्टरोमा सुहर्षिदः अयोग उवाच यदिढुण्डे वरान्मे त्वं दास्यसि भक्तिमोहितः दा तदा दे पादयुग्मे मे भक्तिं देहि दृढां परां पूर्णयोगस्वरूपस्थं मां गुरुष्वगजानन सुखं मुक्तस्वरूपस्थं नाद नमः मुद्गल उवाच अयोगगणराज्यस्य श्रुत्व वचनमुत्तमं जगादतं गणेशानस्तथेत्यन्तर्हितो भवद अयोगस्थं हृदिस्थाप्य भजाधे नन्यमानसः अन्धे योगमयसोऽपि बहुवि मोक्षनायकः इति ते सर्वमाख्यादं चरितं गणपस्य यत् पूर्णयोगधरस्यापि समासेन प्रजापदे त्वं गणराजं तं युदः तेन यज्ञमिमं पूर्णं करिष्यसि न संशयः अन्धे योगयुधश्चैव ब्रह्मभूतो भविष्यसि आज्ञां देहि गमिष्यामि त्वदातिभ्य सुतोषितः रहस्यं गणनाथस्य कथितं सकलं मया नान्यत्किञ्चिदधो दक्षपरं वेदादिसम्मतं शृणुयाद्य पठेद्वापि स सर्वं प्राप्नुयाच्छुभम् अन्धे योगमयो भूत्वा सन्धिष्ठेद्गणपात्मकः ॐ तत्सदि पुराणो पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे योग चरिदे नवमे खंडे पूर्ण योगचरितवर्णन नाम चतुर्थोध्याय ओं